मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं सेवेन् क्रोधासुरसमागमम् श्रीगणेशाय नमः ब्रह्मोवाच एकरात्रं महाघोरं युद्धं बभूवदारुणं ततोरक्तप्रवाहैश्च नद्यो जादा जलौकवद न जय प्राप्यते देवैर्न सुरैर्यमसन्निभैः मखवा वज्रपादैस्तां चूर्णयामासनवान् तदो गदा गदामादाय दारुणां युयुधे देवराजेन महाबलपराक्रमः गदया देवराजं स मूर्च्छिदं प्रचकारः तदोहाकृतं सर्वैर्देवसैन्यं पपालतद इन्द्रः संज्ञासमायोक्तः पुनः सं युयुधे भृशं वज्रेण पादयामास जृम्भं तं धरणीतले त्रिशूलन हतस्त पदीदु शंकर तत सर्वे पपलुर्दन वृधे कदया विषुना त्र बलिसमूर् कुंभकर्णश चंद्रेण मूर्चिदो भवद। राघुसूर्येण सङ्ग्रामे तेजसा पीडितो भृशं पपादमूर्च्छया भूमौ आहा कृत्वा महामुनि द्वन्द्वयुद्धं परे ये ये ह्यकुर्वन्नमरायुर्बलाद ते ते सर्वे च देवेन्द्रायुर्जिता सर्वे पलायिताः भक्तवत्सलभावेन शङ्करो विष्णुरञ्चस रावणं च बलिं तत्र चक्रतुर्नमृतौ मृधे ततोतिकोपसंयुक्ता देवेन्द्राशस्त्रवृष्टिभिः असुरान् मारयामासु सर्वत्र भयसंयुतान् प्रलय मेनिरेतत्र दैत्यास्त्राससमाकुलाः देवास्ते शरणं जग्मु केचित् प्राणपरीप्सया जयलम्बोदरस्वामिन् जय विघ्नेश देवप हे रम्बवक्रतुण्डत्वं जयेत्यूजुः प्रहर्षिताः दैत्यानां कदनं दृष्ट्वा क्रोधपरमविस्मिदः निःस्वस्य चिन्तया युक्तो बभूवे किं भविष्यदि विदुशोकं विदित्वा तौ हर्षशोकश्च संयुगे ययदुशस्त्रवर्षेण ववर्ष तौ कनौ यथा तयो शस्त्रैर्देवा कदा मृधे चिन्नाङ्गाः पपलुस्तत्र दैत्यसन्त्रा सतापिताः इन्द्रं च सहसागत्य शोकः परमदारुणः चकारमूर्च्छिदं सद्यो गदया मूर्ध्नि कादः सङ्गृह्य स्वबले सोऽपि स्थापयामः स देवपं ततः शुक्रण दैत्येन्द्रा विद्यया नीरुजाकृताः बलिमुख्याययुः सङ्ग्रामं पुनश्च महामुनि चक्रेण सहसा हर्षश्चन्द्रं चक्रे स मूर्च्छितम् ततः कोपसमायुक्तशङ्करो युयुधे भृशं त्रिशूलेन महादैत्यान् जखान सकलान् प्रभुः शङ्करस्य बलं वीक्ष्य हर्षस्तत्र समाययौ यो युधे तेन दैत्येन्द्रपुत्रस्तेजस्विनां वरः नानाविधं महाकोरं युद्धं बभूवदारुणं हर्षस्य शङ्करस्यैव परस्परजयैषिणोः ततस्त्रिशूलपादेन शङ्करस्थं जखानः पदिदं मूर्च्छितं हर्षं दृष्ट्वा दैत्या भयातुराः पतितान् दैत्यपान् दृष्ट्वा काव्यस्तत्र समागतः हर्षमूर्च्छा विहीनं वै चकार स्वेन तेजसा ततो हर्षसमयुक्ता दैत्येन्द्रा युयुधुर्भृशम् विष्णुस्तेषां बलं वीक्ष्य चक्रं मुमोच दारुणं चक्रेण क्षुरधारेण हदा दैत्या अनेकशः प्रपेलुर्भयसंयुक्ताश्चिन्नभिन्नाङ्गकामृधे तदशोगसमायादशूलं मुमोच तैजसम् आगत्य सहसा विष्णोः पपाद हृदि विप्रपौ पपात पपातजनार्दनः दैत्या हर्षयुधा सर्वे नादं चक्रोर्महारणे तदो हर्षो महाक्रोधाद्गदया मृत्युकल्पया चकारशङ्करं तत्र पदिदं मूर्च्छया भृशं तदोहाहारवं कृत्वा देवाः सर्वे पराजिताः प्रपेलुः सर्वदेवेन्द्रादैत्याभ्यां प्रासिदा बलात् तद्दृष्ट्वा परमाश्चर्यं लम्बोदरः प्रतापवान् अङ्गुशं क्रोधसंयुक्तो मुमोच दैत्यमण्डले तेजोरूपं महास्त्रं तद्धृष्ट्वा दैत्या विसिस्मिरे यावत्तावच्च तावच्च दैत्येन्द्रौ हदौ हर्षश्च शोककः मायया गणनाथश्च शुक्रं गृह्य गुहान्तरे चिक्षेप च तदसर्वे प्रपेलु राहुमुख्यकाः ततोदिकोपसंयुक्तक्रोधः स्वयमुपागतः पुत्रशोकं हठाद्गृह्य बाणवृष्टिं चकारः तद्बाणैरपि तत्रस्ता देवा सर्वे महामुनि चिन्नाङ्गा अबलन् सद्यो हाकाररवादिशः हा लम्बोदरसमाश्वास्य देवेशस्तान् प्रदाभवान् आययौ रणभूमिं स पाश हस्तोसि धारकः ॐ तत्सदिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे क्रोधासुर समागमो नाम सप्तमोऽध्यायः ओ